वैशम्पायन उवाच गङ्गाद्वारं प्रति महान् बभूव भगवान् ऋषिः भरद्वाजयिति ख्यातः सततं संशितव्रतः सोऽभिषेक्तुं ततो गङ्गां पूर्वमेवागमनदीं महर्षिभिर्भरद्वाजो हविर्धाने चरन्पुरा ददर्शाप्सरसं साक्षाद्धृताचीमाप्लुतां ऋषिः रूपयौवनसम्पन्नां मददृप्तां मदालसां तस्याः पुनर्नदीतीरे वसनम् पर्यवर्तत व्यपकृष्टाम्बराम् दृष्ट्वा तां ऋषिश्चक्रमे ततः तत्र संसक्तमनसो भरद्वाजस्य धीमतः ततोऽस्य रेतश्च स्कन्दतदृशीर्द्रोण आदधे ततः समभवद्रोणः कलशेतस्य धीमतः अध्यगीष्टसवेदांश्च वेदाङ्गानि च सर्वशः अग्निवेषं महाभागं भरद्वाजः प्रतापवान् प्रत्यपादयदाग्नेयमस्त्रमस्त्रविदाम्बरः अग्नेस्तु जातः स ततो भरतसत्तम भारद्वाजं तदाग्नेयं महास्त्रं प्रत्यपादयत् भरद्वाजसखा चासीत् नाम पार्थिवः तस्यापि द्रुपदो नाम तदा समभवत्सुतः निश्रम ग्रोणेन सह पार्थिव चिक्रीड़ाध्ययन चकार क्षत्रिर्षभ तथ्य पृषते स राजा दुपदोभवत्चाशु महाबात्रु नरे भरद्वाजोपि भगवानारुरोह दिवं तदा तत्रैव च वसन्द्रोणस्तपस्ते पे महातपाः वेदवेदाङ्गविद्वान्स तपसा दग्धकिल्बिषः ततः पितृनियुक्तात्मा पुत्रलोभान्महायशाः शारद्वतीं ततो भार्यां कृपीं द्रोणोन्वविन्दत अग्निहोत्रे च धर्मे च दमे च सततं रताम् अलभद्गौतमी पुत्रमश्वत्थामानमेव च सजातमात्रोऽव्यनदयथैवोच्चैश्रवाहयः